रथानाम् च सहस्रम् वै सुवर्णमणिचित्रितम् चतुर्युजाम्भानुमम् च पञ्चानाम् प्रददौ तदा सुवर्णपरिबर्हाणाम् वरचामरमालिनाम् ज्यात्यश्वानाम् च पञ्चाशत्सहस्रम् प्रददौ नृपः दासीनामयुतम् राजा प्रददौ वरभूषणम् ततः सहस्रम् दासानाम् प्रददौ वरधन्विनाम् हैमानिशय्यासनभाजनानि द्रव्याणि चान्यानि च गोधनानि पृथक् पृथक् चैव पाञ्चालराजः परमप्रहृष्टः शिबिकानां शतम् पूर्णम् वाहान् पञ्चशतं नरान् एवमेतानि पाञ्चालोकन्यार्थे प्रददौ धनम् हरणञ्चापि पाञ्चाल्या ज्ञाति देयम् तु धृष्टद्युम्नो ययौ तत्र भगिनीम् गृह्यभारत नानद्यमाने बहुभिः तूर्यशब्दैः सहस्रशः श्रुत्वा चाप्यागतान् वीरान् धृतराष्ट्रो जनेश्वरः प्रतिग्रहाय पाण्डूनाम् प्रेषयामासकौरवान् विकर्णम् च महेश्वासम् चित्रसेनम् भारत द्रोणम् परमेश्वासम् गौतमं कृपमेवच च तैस्ते परिवृता वीराः शोभमाना महाबलाः नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् मण्डयाञ्चक्रिरे तत्र नगरम् नागसाह्वयम् मुक्तपुष्पावकीर्णम् तज्जलसिक्तम् तु सर्वशः धूपितम् दिव्यधूपेन मण्डनैश्चापि संवृतम् पताकोच्छ्रितमाल्यञ्च पुरमप्रतिमम् प्रभौ शृङ्घभेरीनिनादैश्च नानावादित्रनिस्वनैः कौतूहलेन नगरम् दीप्यमानमिवाभवत् तत्र ते शोकदुःखविनाशनाः तत उच्चावचावाचः पौरैः उधीरिता अश्रृण्वंस्ते पाण्डवाहृदयङ्गमाः अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् योनस्वानिवदायादान नः स्वानिवदायादान् धर्मेण परिरक्षति अद्य पाण्डुर्महाराजो वनादिवचनप्रियः आगतः प्रियमस्माकम् चिकीर्षुर्नात्र संशयः तात सर्वेषाम् नः परम् प्रियम् यन्नः कुन्तीसुता वीरा नगरं पुनरागताः